समा॒नो मन्द्रःसमिति॒ समानि॒ समा॒नं मन॑सह चि॒त्तमेषाम् समा॒नं मन्द्रमभिमन्द्रयेवाः समानेन समा॒नो मन्द्रः समिति॒ समानि॒ समा॒नं मन॑सह चि॒त्तमेषाम् समा॒नं मन्द्रमभिमन्द्रयेवाः समानेन वो समा॒नो मन्द्रः समिति॒ समा॑नि समा॒नं मन॑सह चि॒त्तमेषाम् समा॒नं